श्रीहरिः नमः अथ चतुर्विंशोऽध्यायः श्रीशुक उवाच भगवानपि तत्रैव बलदेवेन संयुतः अपश्यन्निवसन् गोपानिन्द्रयाघक्रतोद्यमान् तदभिज्ञो भिभगवान् सर्वात्मा सर्वदर्शनः प्रश्रयावनतोऽपृश्च वृद्धानन्दपुरोगमान् कथ्यतामेऽपितः कोऽयं उपागतः किं कस्य चोद्धे शक्येन वा साध्यते महान् कामो मख्यं शुश्रूषवेऽपितः न हि गोप्यं कि साधूनां कृत्यं सर्वात्मनामिह अस्त्यस्त्वपरदृष्टीनां ममित्रोदास्तविद्विषाम् उदासीनोरिवत्वर्ज आत्मवत् सुकृदुष्यते ज्ञात्वा ज्ञात्वा च जनो यमनु तिष्ठते विदुषकर्मसिद्धिः स्यात् तथा न विदुषो भवेत् तत्र तावत् क्रियायोगो भवतां किं विचारितः अथवा लौकिकस्तन्मे पृच्छतः साधु पण्यथां नन्दौ उवाच पर्जन्यो भगवानिन्द्रो मेघास्तस्यात्ममूर्तयः ते भिवर्षन्ति भूतानां प्रीणनं जीवनं पयः तन्ता तवयमन्ये च वार्मुचां पतिमीश्वरं द्रव्यैस्तत्रेतसा सिद्ध तच्चेक्षणो ब जीवन्ति त्रिवर्गफलहेतवे पुंसां पुरुषकाराणां पर्जन्यक्फलभावनः य एवं विसृजे धर्मं पारम्पर्यागतं नरः कामात् लोभाद्भयाद्वेषात् सवैनाप्नोति शोभनं श्रीशुक उवाच वचो निशंयनन्दस्य ततान्येषां व्रजौकसाम् इन्द्राय मन्युं जनयन् पितरं प्राह केशवः श्रीभगवानुवाचां कर्मणा जायते जन्तुः कर्मणैव विलीयते सुखं दुःखं भयं क्षेमं कर्मणैवाभिपद्यते अस्ति चेत् ईश्वरः कश्चित् फलरोप्यन्यकर्मणा कर्तारं भजते शोपि किमिन्द्रेणेकभूतानां स्वस्वकर्मानुवर्तिना अनीशेणन्यथा कर्तुम् स्वभावविहितनृणाम् स्वभावतन्त्रो हि जनः अनु स्वभावम् अनुवर्तते स्वभावस्तमिधं सर्वं स देवासुरमानुषम् देहानुच्चावसाञ्जन्तुः प्राप्योऽ सृजति कर्मणा शत्रुमित्रमुदासीनः कर्मैव गुरुरीश्वरः तस्मात् सम्भूजयेत् कर्म स्वभावस्तस्वकर्म कृते अञ्जसायेन भावं यस्मन्यम् उपजीवति न जारं नार्यसतीव्यथा वर्तेत वैश्यस्तु वार्तया जीवेत् शूद्रस्तु द्विजसेवया कृषिवाणिज्य गोराक्षा कुसीदं तुर्यमुच्यते वार्ता चतुर्विधा तत्र वयं गोभृतयोनिशं सत्त्वं रजस्तमयिति स्थित्युत्पद्यन्त हेतवः विश्वम् अन्योन्यं विविधं जगत् रजसा चोदितामेगा वर्षन्त्यं भूनि सर्वतः प्रजास्तैरेव सिद्ध्यन्ती महेन्द्रः किं करिष्यति ननःपुरो जनवता न ग्रामा न तस्माद् गवां ब्राह्मणानाम् अद्रेशारभ्यताम्मकः य इन्द्रयागसंभारास्तैरयं पश्यन्तां विविता भाकाः शुपान्ताः पायसादयः संयावा सम्यक् ब्राह्मणे ब्रह्मवादिभिः अन्नं बहुवितं देव्यु ो धेयं बोधेऽनुदक्षिणाः अन्येभ्यः शाश्वचाण्डाल परितेभ्यो यथार्हतः यवचं च गवां दद्वा त्वलङ्कृता भुक्तवन्तस्वनुलिप्ता सुवाससहा प्रदक्षिणं च कुरुत गोभिप्राणलपर्वतान् एतन्ममतं तात क्रियतां अयं ग्रो ब्राह्मणाद्रीणा मह्यं च दयितोमकः श्रीशुक उवाच कालात्मना भगवता शक्रधर्पं जिगांसतां प्रोक्तं निशम्य नन्दाभ्याशात्मग्रन्तधत्वचः तथा च व्यदतुः सर्वं यथाहमधुसूदनः वाचयित्वा स्वस्त्ययनं त्रद्रव्येण गिरिद्विजान् उपहृत्य बलीन् सर्वान् आदृताय वसम् गवान् गोतनानि पुरस्कृत्य गिरिं शक्रुप्रदक्षिणम् अनांशनढुत्युक्तानि गोपस्य कृष्णवीर्याणि गायन्त्यै सद्विजासिषः कृष्णस्त्वन्यतमं रूपं गोपविसृम्भणं गतः शैलोस्मीति बलिमादक् बृहद् वपुः तस्मै नमो व्रज जनैः सखश्चक्रत्मनात्मने अहोपश्यत शैलोऽसौरूपिनोऽनुग्रहं व्यधात् केशो वजानधोमर्त्यान् कामरूपी वनौकशहा हन्ति ह्यस्मै नमस्यामः शर्मणि आत्मनो गवाम् इत्यत्रिघो वासुदेव प्रणोदिताः यथा विधायते गोपा हैकृष् व्रजं ययुः इति श्रीमद्भगवते महापुराणे दशमस्कन्धे पूर्वार्धे चतुर्विंशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथमहराज की जय